श्रीमद्भागवतमहापुराणं पञ्चमस्कन्धः अष्टमोऽध्यायः अपि श्रीदशसो भगवानुरूपतिरेनं पतिरेनं मृगपतिभयान्मृतमातरं मृगबालकं स्वाश्रमपरिभ्रष्टमनुकं भया कृपणजनवश्चल परिपाति किं वात्मजविश्लेषज्वरद्वदहनशिखाभिरुपत तप्यमान हृदयस्थलन् नलिनिकं ममोपसृतं नृगीतनयं शिशिरशान्तान् रागुणितजवदनसलिलामृतं मयं जगभिभिः स्वधयतीति च एवम् अघटमानं मनोरथा कुलहृदयो मृगदारकाभासेन स्वारब्धकर्मणा योगारम्भणतो विभ्रंसित तयोगतापसों भगवादाराधनलक्षणाच्च कथमितरतां जात्यन्तरेण कुलक आशङ्गः साक्षाणि श्रेयसप्रतिपक्षतया पाक्परित्यक्तद्वस्त्यज हृदयाभिजातस्य तस्यैव मन्तराय विहतयोगारम्भणस्य राजरसे भरतस्य तावन्मृगार्भकपोषणपालन प्रीडनलालनालुषङ्गेणां विगणयत् आत्मान महिर्वाकुबिलं दुरतिक्रमः कालकरालम्भत आपद्यत तदानीमपि पार्श्ववर्तीनम् आत्मजम् इवानुशोचन्तम् अभिवीक्षमाणो मृग एवाभिनिवेशितुमना विसृज्य लोकमिमं स मृगेण कलेवरं मृतमनो न मृतं जन्मानो स्मृतिरिं तर्वन्मृगशरीरम् अवाप तत्रापि ह वा आत्मनो मृगत्वकारणं भगवदाराधनसमीहानुभावेनानुस्मृत्य भृशमनु तप्यमान आह अहो कष्टं भ्रष्टोऽहमात्मवतामनुं तथाद्य विमुग्धसमस्तसङ्गस्य विभिग्धपुण्यारण्यशरण्यस्यात्मवत् आत्मनि सर्वेषाम् आत्मा आत्मनां भगवति वासुदेवे तदनु श्रवणमननसङ्कीर्तनाराधना नस्मरणाभीं योगेन शून्यशकलयामेन कालेन समावेशितं समाहितं कार्ष्णेन मनसस्तत्तो पुनर्ममाबुधस्यारान्मृगं सुतमनुपरिश्रुश्राव इत्येवं निगूढनिर्वेदो विसृज्य मृगिं मातरं पुनः भगवच्छेत्रमुपशमं शीलमुनिगणवन्दयितं शालग्रामं पुलश्च पुलःश्रमं कालञ्जरान्तत्या जगाम तस्मिन्नपि कालं प्रतिक्षमालसङ्गाज्ज भृतमुद्विग्नम् आत्मसहचरसंस्करं पर्णतृणविरुधावर्तमानो मृगत्वा निमित्तावसालमेव गणेल्मृगशरीरं तीर्थोदकक्लिन्दां वस्तुसर्जा ते श्रीमद्भागरे महाब्राळे प्रभंसां चितायां पञ्चमी स्कन्दे भरतचरितेष्टबोऽध्यायः